ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् इलेवन् समिद्वर्णनं बृहस्पतिरुवाच राजतं राजताक्तं वा पितॄणां पात्रमुच्यते राजदस्य कथा वापि दर्शनं दानमेव वा अनन्तमक्षयं स्वर्गे राजते दानमुच्यते पितृनेदेन दानेन सत्पुत्रास्तारयन्त्युदाचते हि स्वथा दुग्धा पात्रे तैः पृथिवी वा पार्थिभिस्ताद तस्मिन् दत्तं तदक्षयं कृष्णार्जिनस्य साम्निध्यं दर्शनं दानमेव च रक्षोघ्नम् ब्रह्मवर्चस्यं कारयेद् कनकं राजदम्पात्रं दौहित्रं कुतुपस्थिलाः वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः आयुःकीर्तिप्रजैश्वर्यप्रज्ञासन्तर्धनः दिशि दक्षिणपूर्वस्यां वेदिस्थानं निवेदयेद् सर्वतो रत्निमात्रं चतुरस्रं सुसंस्थितं वक्ष्यामि विधिवत् आयुष्यम आरोग्यं। धन्यमायुष्यमारोग्यं बलवर्णविवर्धनं तत्र कर्तास्त्रयः दण्डाश्च खादिराः अरत्निमात्रास्ते कार्या रचधैप्रविभूषिताः ते विदस्यायदाकर्ता सर्वतश्चतुरङ्गुलाः प्राग्दक्षिणमुखान् कुर्या स्थिरा न शुषिरांस्तथा अद्भिः पवित्रयुक्ताभिः पावयेत् सततम् शुचिः पयसा ह्याजगव्येन शोधनं सततम् च सततं तर्पणं ह्ये दत्तृप्तिर्भवति शाश्वती इह योऽर्चयेत्प्रयतः पितॄन् मन्त्रेण विधिवत् सम्यगश्वमेधफलं लभेत् तान् स्थापयेदमावास्यां गर्तान्वै चतुरङ्गुलान् त्रिसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु तस्य पुष्टिस्तधैश्वर्यमायुःसन्ततिरेव च दिवि च भ्राजते लक्ष्म्या मोक्षं च लभते क्रमाद पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेद अश्वमेधफलं ह्येत् तद्विजय संस्कृत्य पूजितम् मन्त्रं वक्ष्याम्यहं तस्मादमृदं ब्रह्मनिर्मितं देववतेभ्यः पितृभ्यश्च महायोगिभ्य एव च नमः स्वाहयैश्वधायै नित्यमेव भवत्युद आर्धे वसाने श्राद्धस्य त्रिरावृत्तं जपेत् सदा पिण्डनिर्वपणे वापि जपे देदं समाहितः क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युद पढ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः राज्यकामो जपे देदं सदा मन्त्रमदन्त्रितः वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्धनं प्रीयन्ते पितरो येन जपेन नियमेन च सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसां नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् इन्द्रादीनां च नेतारो दशमारी च यस्तथा सप्तर्षीणां पितॄणां तान्नमस्यामि कामदान्मन्वादीनां च नेतारसूर्याचन्द्रमसोस्तथा तान्नमस्कृत्य सर्वान्वै पितृमत्सुविधिष्वपि नक्षत्राणां ग्रहाणां च वायु अग्न्योश्च पितृनथ द्यावापृथिव्यश्च सदा नामस्यामि कृताञ्जलिः देवर्षीणाञ्च नेतार सर्वलोकनमस्कृताः त्रातार सर्वभूतानां नमस्यामि पितामहान् प्रजापदेर्गवां वह्ने सोमाय च यमाय च योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ये ददुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेविधम् पवित्रं परमं ह्येदच्छ्रीमद्रोगविनाशनम् एतेन विधिना युक्तस्त्रीन्वराल्लभते नरः अन्नमायुःसुताश्चैव दधते पितरो भुवि भक्त्या परमया युक्तश्रद्धधानो जितेन्द्रियः सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः सप्तद्वीपसमुद्रायां पृथिव्या मेकराड् भवेत् यत्किञ्चित् पच्यदे गेहे भक्ष्यं वा भोज्यमेव वाक् अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा क्रमश कीर्त्या बलिपात्र्यधपर यु योम ते निगदशु पलाशे ब्रह्मवर्चस्व्द्धे वसुभाना सर्वूताधिपत च्लक्षे निभुदा हृदम कुष्ठिप्रजाश्चन्यग्रोधे बुद्धिप्रज्ञा धृति स्मृतिः रक्षोघ्नं च यशस्यं च काश्मरीपात्रमुच्यते सौभाग्यमुत्तमं लोके माधुके समुदाहृदं फल्गुपात्रेषु कुर्वाण सर्वान् कामानवाप्नुयात् परां द्युतिमाधार्के दुःप्राकाश्यं च विशेषतः बैल्वे लक्ष्मीं तथा मेधां नित्यमायुस्तथैव च क्षेत्रारामतडागेषु सर्वसस्येषु चैव वर्षत्यजस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः यतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः सदा दध्यात् सयज्ञानां सर्वेषां फलमाप्नुयात् पितृभ्यपुष्पमाल्यानि सुगन्धानि च तत्परः सदा दिवाकरः क्रियायुक्तशविभादिवाकरः गुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति संयुक्तान्मधुसर्पिर्भ्यं सोऽघ्निष्टोमफलं लभेद् धूपं गन्धगुणोपेदं कृत्वा पितृपरायणः लभते च सुशर्माणि इह चामुत्रचोभयोः दद्यादेवम् पितृभ्यास्तु नित्यमेवस्य दन्द्रिदः दीपं पितृभ्यप्रयतः सदा यस्तु प्रयच्छति गतिं चाप्रतिमं चक्षुस्तस्मात्सलभदेशुभम् सलभदे शुभं। सा चैव कान्त्या चापिबलेन च भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे अप्सरोभि परिभृतो विमानाग्रे च मोदते गन्धपुष्पैश्च धूपैष्व जपा हुदिभिरेव च फलमूलनमस्कारैपितॄणां प्रयदशुचिः पूजां कृत्वा द्विजान्पश्चात् पूजये धनसम्पदा श्राद्धकालेषु नियतं वायुभूदाः पितामहाः अविशन्दिद्विजान् श्रेष्ठां तस्मादेतब्रवीमि ते वस्त्रैरत्नप्रधानैश्च भैक्ष्यैः गोभीरश्वैस्तथा ग्रामैः पूजये द्विजसतमान् भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु तस्माद्यत्नेन विधिवत्पूजयेदद्विजान् सदा सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः प्रोक्षणं च तथक् कुल्याच्छ्राथ कर्मण्यतन्द्रितः दर्भान् पिण्डांस्तथा भक्ष्यान् पुष्पाणि विविधानि वी च गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् अभ्यङ्गं दर्भविञ्जूलैस्तृभिः कुर्याद्यधा विधि अपसव्यं विद्रुभ्यश्च ददा दञ्चनमुत्तमं निपात्यजानु सर्वेषां वस्त्रार्थं सूत्रमेव वा खण्डनं चैव चैव तथैवोल्लेखनं द्विजः सकृदेव पितॄणां स्यात्पितॄणां त्रिभिरुच्यते एकं पवित्रं हस्तेन पितृन् सर्वान् सकृत्सकृतचैलमन्त्रेण पिण्डेभ्यो दत्वा दर्शाञ्जिने हितं सदा सर्पिस्त्रिलैर्युकृतां स्त्रीन् पिण्डान् निर्वपेद् भुवि जानो कृत्वा तथा सव्यं भूमौ पितृपरायणः पितृन् पितामहांश्चैव तथैव प्रपिधा महान् आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नदः पिण्डान् परिक्षिपेत् सम्यगपसव्यमदृदः अनाद्यैरेव मुख्यैश्च भक्ष्यैश्चैव पृथग्विधैः ऋधङ्ग् माता महानां तु केचिदिच्छन्ति मानवाः त्रीन् पिण्डाननुपूर्व्येण साङ्गुष्ठान् पुष्टिवर्धनान् जानन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमं सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् नमो वः पितरः शोषायेदि सर्वमतन्त्रितः दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेद् नमो वः पितरः सौम्यः पठन्नेवमतन्त्रितः सव्योत्तराभ्यां पाणिभ्यां धर्मेऽर्थं समतन्त्रितः उलूखलस्य लेखाया मुदपात्रावसेचनं क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेद वर्जयेद्यक्षणं यज्ञे यद्यप्यहदवस्त्रजां न स्फ्रीणन्ति तथैदानिधातुश्चाप्यहितं भवेद् श्रेष्ठमाहुस्त्रिकगुदमञ्चनं नित्यमेव च कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सु परिरक्षितं चन्दनागुरुणि चोभे तमालो शिरपद्मकं धूपश्च गुगलश्रेष्ठ तुरुष्कश्वेत एव च शुक्लाः सुमनःसश्रेष्ठास्तथा पद्मोत्पलानि च गन्धरूपोपपन्नानि चारण्यानि च कृष्णशः तथा हि सुमनाडीरूपिका स्म कुरण्टिका पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः यथा गन्धादभेदानि चोग्रगन्धानि यानि च वर्जनीयानि पुष्पाणि पुष्टिं मन्विचदा सदा द्विचादयो यथोद्दिष्टा नि यदा सुहृदङ्मुखाः पूजयेद्यजमानस्तु यजमानस्तु विधिवद्यक्षिणामुखः तेषामभिमुखो दद्यदर्भत्पिण्ठांश्च यत्नतः अनेन विधिना साक्षादर्चिता स्युः पिता महाः हरिदा वयस पिञ्जाला पुष्टा मात्राः प्रमाणेन विधृतीर्थेन संस्मृताः उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः तथा श्यामाकनिवारा दुर्वाच समुदाहृदा पूर्वं कीर्तिमदां श्रेष्ठो बभूवा श्वप्रजापतिः तस्य बालानि पतिता भूमौ काश्यत्वामागताः तस्माद्देया सदा काश्या श्राद्धकर्मसु पूजिताः पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता प्रजा पुष्टिद्युतिप्रज्ञा कीर्तिकान्तिसमन्विताः भवन्ति रुचिरा नित्यं विपा मानोखवर्जिताः सकृदेवास्तरेद्यर्भान् पिण्डार्थे दक्षिणामुखः प्राक् दक्षिणाग्राणि यदो विधि चाप्यत्र वक्षति न एकत्र चाधाय मनश्राद्धं कुर्यात् समाहितः निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया रक्षांसि यक्षाः सपिशा च हदा मया यादुधानाश्च सर्वे येदेन मन्त्रेण दुः स यदात्मा तां शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपे द्विचादिर्दिशमुत्तरां गतः एवं पित्रियं दृष्टमन्त्रं हि यस्य तस्यासुरा वर्जयन्तीह सर्वे यस्मिन् देशे पठ्यते मन्त्र येष तं वैदेशं राक्षसा वर्जयन्ती अन्नप्राकारान् शुचीन् साधून् संवीक्षते नो स्पृश्यं स्वापि दद्याद् पवित्रपाणिश्च भवेन्न वाहि यः पुमान्न कार्यस्य अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा मनसाकाङ्क्षदे यद्य तत्तद्य द्युः पितामहाः पितरो हृष्टमनसो रक्षांसि विमनांसि च भवन्त्येवं कृते श्राद्धे बल्वजा उपलास्तथा विरणाश्चोदुवालाश्च लड्वा वर्ज्याश्च नित्यशः एवमादिन्ययज्ञानि तृणानि परिवर्जयेद अञ्जनाभ्यजनं गन्धान् सूत्रप्रणयनं तथा काश्ये पुनर्भवैकार्यमश्वमेधफलं लभेद् काश्या पुनर्भवाये च बर्हिणो ह्युपबर्हिणः इत्येते दे पितरो देवादेवाश्च पितरः पुनः पुष्पगन्धविभूषाणामेषमन्त्र उदाहृतः आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये अन्धर्विधाय समिधस्तदो विधीयते समाहिते मनसा प्रणीयाग्निं समन्ततः अग्नये कव्यवाहायस्वधा अंगिरसे नमः सोमाय वै पितृमदे स्वधा अङ्गिरसे पुनः यमाय वैवस्वधये स्वथा नम इति इत्येदे होममन्त्रास्तुत्रयाणामनुपूर्वशः दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा येदयोरंदरे दयोरन्तरे नित्यं जुहुयाद्वै विभस्वते उपकारस्वथकारस्तथैवोल्लेखनं च यद् होमजप्य नमस्कारप्रोक्षणं च विशेषतः बहुहव्यन्धने चाग्नौ सुसमिध्ये तथैव च अञ्चनाभ्यञ्जनं चैव पिण्डनिर्वपणं तथा अश्वमेधफलं चैदसमिध्ये यत्कृतं द्विजैः क्रियासर्वा सर्वं यथोद्दिष्टा प्रयत्नेन समाचरेत् बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः विधूमे लेलिखाने च होधव्यं कर्मसिद्धये अप्रबुद्धे समिद्धे वा जुहुयाद्योहुदाशने यजमानो भवेद्दन्धसोमुत्रे दिहि न श्रुतम् अल्पेन्धनो वा रूक्षोऽग्निर्वस् स्फुलिङ्गश्च सर्वशः ज्वालाधूमापसव्यश्च सदु वन्निरसिद्धये दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः भूमिं वगाहदे यत्र तत्र विद्यात्पराभवद अर्चिष्मान् पिण्डितशिखसर्पि काञ्चनसन्निभः स्निग्ध प्रदक्षिण्व वैत्कार नरनारीगणेभ्य पूजा प्राप्नि शाश्वतीम अक्ष पूजिताल्लो दुमप्त्रणी फलाधस्था श्राधे महापवित्रण मेध्याच विशेषतः पवित्रं च द्विजश्रेष्ठाश्रुधये जन्मकर्मणां पात्रेषु फलमुद्दिष्टं जन्मया श्राद्धकर्मणि तदेव कृष्णं विज्ञेयं समित्सु च यथाक्रमं कृत्वा समाहितं चित्तमाज्ञेयं वै करोम्यहम् अनुज्ञातः तथैव कृदमादायपात्रेच कृदमादाय पात्रे च जुहुयाद्धव्यवाहने पलाशप्लक्षण्यग्रोधप्लक्षाश्वविकङ्कताः उदुम्बरस्तदा बिल्ल्वश्चन्दनो यज्ञियाश्चये सरलो कदरिस्तथा समिदर्थे प्रशस्तास्युरेदे वृक्षाविशेषतः ग्राम्या कण्डगिनश्चैव याज्ञिया ये चकेन च पूजिताः समिदर्थं देवितॄणां वचनं जुहु समिद्भिषट्फले याभिर्जुहुयाद्योहुदाशनं फलं यत्कर्मणस्तस्य तन्मे निगदधशृणु अक्षयं सर्वकामीयमश्वमेधफलं हि तदश्लेष्मान्दगोनक्रमालकपिद्ध शाल्मलिस्तथा निपो विभीदकश्चैव श्राद्धकर्मणि गर्हिता बिल्वज कोविदारश्च वर्जनीया समन्तदः शकुनानां निवासांश्च वर्जयेदमहीरुहान् अन्यांश्चैवं विधान् सर्वान्नयज्ञीयांश्च वर्जयेद स्वधेदि मन्त्राणां पितॄणां पचनं यथा स्वाहेधि चैवदेवानां यज्ञकर्मण्युदाहृतम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे श्राद्धकल्पे समिध्वर्णन नामैकादशोऽध्यायः ओ